वैशंपायनवाचा एवमुक्त्वा प्रपन्नाय शुचये भगवान् प्रभुः प्रोवाच लोकतत्त्वज्ञो योगी विद्यामनुत्तमाम। धर्मराजाय धीमांसव्यासः सत्यवती सुतः अनुज्ञाय कौन्तेयम् तत्रैवान्तरधीयत युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः काले काले सदाभ्यसन् सव्यासवाक्यमुदितो <गगगाँ> वनाद्वैतवनात्ततः ययौ सरस्वती कूले काम्यकम् नाम मन्वयोर्महाराजशिक्षाक्षरविशारदाः ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा ततः काम्यकमासाद्य तत्र ते नियमसन् राजन् किञ्चित्कालम् मनस्विनः धनुर्वेदपरा वीराशृण्वन्तो वेदमुत्तमम् चरन्तो मृगयाम् नित्यम् शुद्धैर्बाणैर्मृगार्थिनः पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि इति श्रीमहाभारते वनपर्वणि अर्जुनाभिगमनपर्वणि काम्यकवनगमने षट्त्रिंशोऽध्यायः